देवानामिवते ते सर्वं वाचिबद्धं न संशयः स दीन इव दुर्धर्षकस्माच्छोचसि पुत्रक उपस्थितः सर्वकामैस्त्रिदिवेवासवो यथा विविधैरन्नपानैश्च प्रवरैः किं नु निरुक्तं निगमं छन्द सषडङ्गार्थशास्त्रवान् अधीतः कृतविद्यस्त्वमष्टव्याकरणैः कृपात् हलायुधात् कृपा द्रोणादस्त्रविद्यामधीतवान् प्रभुस्त्वम् भुञ्जसे पुत्रसंस्तुत सूतमागधैः तस्यते ते विदितप्रज्ञ शोकमूलमिदं कथम् लोकेस्मिन् ज्येष्ठभागीत्वम् तन्ममाचक्ष्वपुत्रक वैशम्पायन उवाच तस्य तद्वचनम् श्रुत्वा मन्दः क्रोधवशानुगः पितरम् प्रत्युवाचेदम् स्वमतिम् सम्प्रकाशयन् दुर्योधन उवाच अश्नाम्याच्छादये यथा कुपुरुषस्तथा अमर्षम् धारये चोग्रम् निनीषु कालपर्ययम् अमर्षणः स्वा प्रकृतिरभिभूय परं स्थितः क्लेशान् मुमुक्षु परजान स पुरुष उच्यते संतोषो वै श्रियं हन्ति ह्यभिमानम् भारत अनुक्रोशभये चोभेयैर्वृतो नाश्नुते महत् न माम् प्रीणातिमद्भुक्तम् श्रियम् दृष्ट्वा युधिष्ठिरे अतिज्वलन्तीम् कौन्तेये विवर्णकरणीं मम सपत्नानृध्यतोत्मानम् हीयमानम् निशम्य च अदृश्यामपि कौन्तेयश्रियं पश्यन्निवोद्यताम्